अथ तृतीयाष्टः द्वितीयप्रश्नप्रारम्भः तिरुद्वेगस्यामितो दिवि सोम आसीत् गङ्गायव्याहरत् तस्य पर्णमच्छिद्यत तत्पर्णोऽभवत् तत्पर्णस्य पर्णत्वम् ब्रह्म वै पर्णः यत्पर्णशाखया वत्सानप ब्रह्मणे वेनानपाकरोति गायत्रोऽपि पर्णः गायत्राः पशवः तस्मात् त्रीणि त्रीणि पर्णस्य पलाशानि त्रिपदा गायत्री यत्पर्णशाखयागाः प्रार्पयति स्वदेवेना देवतया प्रार्पयति यङ्कामये तापशुः स्यादिति अपर्णान्तस्मै शुष्काग्रामाहरे अपशुरेव भवति यम् कामयेतपशुवान् स्यादिति पशुपर्णान् तस्मै बहुशाखामाहरेत् पशुमम् तमेवेनम् करोति यत्प्राचीमाहरेत् देवलोकमभिजयेत् यदुदीचीम् मनुष्यलोकम् प्राचीमुदीचीमाहरति भयोर्लोकयोरभिजित्यै इषेत्वोर्जेत्वेत्याह विषमेवोर्जम् यजमाने दधाति वायवस्थेत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः अन्तरिक्षदेवत्याः खलु वे पशवः वायव एवेनान् परिददाति प्रवा एनानेतदा करोति यदाः वायवस्थेत्युपायवस्थेत्याह वा यवस्थेत्य। वा यजमानादेव पशू नपह्वयते देों वसितापयी प्रसोत्ई श्रेष्ठतमा कर्मणिताह यो हिश्रेष्ठतम कर्म तस्द आप्याजमघ्रिया भाग मिह वत्सेभ्युरा मनुष्याप्याज दिन नईद्राप्याजय ऊर्जस्वतेः पयस्वतीरित्याह कूर्जगम् हिपयः सम्भरन्द्रि प्रजावतेरणमेवायलक्ष्मानित्याह प्रजापत्यै मा वस्तेन एषतमाघशगुंस इत्याह गुप्त्यै रुद्रस्य हेतिः परिभोपृणक्वित्याह रुद्रा देवेनास्त्रायते ध्रुवा अस्मिन् गोपतो स्याद बह्वीरित्याह ध्रुवा एवास्मिन् वह्वेः करोति यजमानस्य पशून्पाहेत्याह पशूनाङ्गोपीथाय तस्मात् सायम् पशव उपसमावर्तन्ते अनधः साधयति गर्भाणाम् धृत्या अप्रपादाय तस्माद्गर्भाः प्रजानामप्रपादुकाः उपरीव निदधाति उपरि बहिसुवर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै देवस्य तासवितः प्रसवरित्यश्वपरिशुमा दत्ते प्रसो यै अश्विनार्बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्ताम् वोष्णो हस्ताभ्यामित्याह यत्यै यो वा ओषधेः पार्धशो वेद नीना स प्रजापतिर्वा ओषधेः पर्वशो वेदा स येना नहिमस्ति अश्वपश्वापरिरच्छैति प्राजापत्यो वा अश्वस्य यो नित्वाय ओषधे नाम यज्ञस्य घोषरसेत्याह यजमान एव रयिङ्गधाति प्रत्युष्टतुम् रक्षः प्रत्युष्टा हरातजरित्याह रक्षसामुपहत्यै प्रेयमगाद्धिषणा बहिरच्छेत्याः विद्या वै धिषणाः विद्य वै न दच्छैति स्वधयावितष्टेत्याः मानवीः परुषः स्वधाकृता त कवयः पुरस्तादित्याह शुश्रुवागुंसो वै कवयः यज्ञः मुखतार अथो यदेतुक्त यत कुतर तच्या दिशो दो जुष्टम बर्रास इह बर्ष सृद्ध्य कर्मणो न पाध दशूतमसीह यद्वाज किना अंबरीशूत अथो यथा वस्य सेत् प्रतिप्रोच्याहेदम् करिष्यामीति एवमेव तदध्वर्युर्देवेभ्यः प्रतिप्रोच्य परिहृदाति आत्मनो हि पुंसायै यावतः स्तम्बान् परिदिशेत् यत्तेषामुच्छिग्ष्यात् अतितद्यज्ञस्य रेचयेत् एकग्रस्तम्बम् परिदिशेत् तघुम् सर्वम् दायात् यज्ञ नरेकाय वर्षवृद्धमसीह वर्ष वृद्धा वा ओषधय देंवरीह दैरत्किहांसाई पर्वतेराध्यास मिहर्ध्य आच्छेता ते मारह समनो मीयते यं वेद देवबलिः शतबलशं विरोहेत्याह प्रजा वै बर्हिः प्रजानाम् प्रजननाय सहस्रवलशाविजयगम् बृहेमेत्याह आशिषमेवैतामाशास्ते पृथिव्याः संवृतः पाहेत्याह प्रतिष्ठित्यै अयिङ्गायुङ्गान्मुष्ट्येन् नुनोति निनत्वाय प्रजात्यै सुसम्भृतात्वा सम्भरामेत्याह ब्रह्मणै वैनत्सम्भरति अदित्यैरास्नासेत्याह इयम् वा अदितिः अस्या एव वैनद्रास्नाहम् करोति सन्नहनमित्याह इन्द्राणी वाऽग्रे देवता नादुम् समनह्यत सार्ध्नाग् वृद्धि सन्नह्यति प्रजा वै बर्हिः प्रजानामपरावापाय तस्मात् स्नावसन्तताः प्रजा जायन्ते उषाते ग्रन्थिङ्ग्रनात्वित्याह पुष्टिमेव यजमाने दधाति स ते मा स्थादित्याहाहिंसायै पशशात्प्राञ्चमुपगूहति पश्चाद्वै प्राचीनगुम् रेतोऽधीयते पश्चादेवास्मै प्राचीनगुम् दधाति इन्द्रस्य त्वा बाहुभ्यामिद्याह इत्याह इन्द्रियमेव यजमाने दधाति बृहस्पतेर्मूर्ध्ना हरामीत्याह ब्रह्म वै देवानाम् बृहस्पतिः ब्रह्मणै वैनद्धरति उर्वन्तरिक्षमन्विहीत्याह गत्यै देवम् गममसीत्याह देवानेवैनद्गमयति अनघः साधयति गर्ना धृतिया अयद गर्भाः प्रजानाम दधा उपरी बहि सुवर्गो लोक सुवर्ग से लोकस्य सैर्वेद्युरीध्मा बर कौति यभ्य गृृहत्ोपस प्रजापतिमसृजत क्यों खे अस्रगंसेता ये प्रजापति योखे साया दुखे उपद्रस्रगुंसा शुंधध्याजकर्मे देयजायाह दिवज्या शुंधति मातरीश्व घर्मासीह अंतरक्षं वै मतरश्व लोकानाध यौरसी पृथिव्यस दुवश्च्य पृथिव्या संभृता यदुखा तस्वया असी पर धानेृष्टै विश्व दृष्टिमे वृंधे दृगुम्ह स्वरिध वसूनाम् पवित्रमसीत्याः प्राणा वै वसवः तेषाम् वा एतद्भागधेयम् यत्पवित्रम् तेभ्य एवै नत्करोति शतधारकम् सहस्रधारमित्याह प्राणेष्वे वा युर्दधाति सर्वत्वाय त्रिवृत्पलाशशाखाया अधर्भमयम् भवति त्रिवृद्वै प्राणः त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति सौम्यः पर्णः स यो नित्वाय साक्षात्पवित्रम् दर्भाः प्राक् सायमधिनिदधाति तत्प्राणापानयो रूपम् तिर्यक् प्रातः तद्दर्शस्य रूपम् दार्श्यर्गिह्येतदहः अन्नम् वेचन्द्रमाः अन्नम् प्राणाः उभयमेवोपैत्यजामित्वाय तस्मादजगुम् सर्वतः पवते हुतस्तोको हुतोद्रप्सवित्याह प्रतिष्ठित्यै हविषोस्कन्दाय न हि हुतग्रस्वाहा कृतग्रस्कन्दति दिविनाको नामाग्निः तस्य विप्रुषो भागधेयम् अग्नये बृहते नाकायेत्याह नाकमेवाग्निम् भागधेयेन समर्थयति स्वाहाद्यावापृथिवीभ्यामित्याह द्यावापृथिव्योरेवै न प्रतिष्ठापयति पवित्रपत्यानयति अपाञ्चैवोषधीनाम् चरसगुम् सदुम् सृजति अथो ओषधीष्वेव पशून् प्रतिष्ठापयति अन्वारभ्यवाचिम् यच्छति यज्ञस्य धृत्यै धारयन्नास्ते धारयन्त इव हि दुहन्ति कामधुक्षयित्याः तृतीयस्यै त्रय इमे लोकाः इमानेव लोकान् यजमानो दुहे अमोमिति नाम गृह्णाति भद्रमेवासाम् कर्म विष्करोति सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मेत्याह इयम् वै विश्वायोः विश्वकर्मा इमानेवैताभिर्लोकान् यथा पूर्वम् गुहे अथो यथा प्रदात्रे पुण्यमाशास्ते एवमेवैना एतदुपस्तौति तस्मात्प्रादादित्युन्नीयवन्दमाना उपस्तुवन्तः पशून् गुहन्ति बहु दुग्धीन्द्राजदेवे ह्यो हविरिति वाचम् विसृजते यथा देवतमेवम् प्रसौति दैव्यस्य च मानुषस्य च व्यावृत्त्यै तिराः त्रिषत्या हि देवाः अवाचं यमोऽनन्वारभ्योत्तराः अपरिमितमेवावरुन्धे न दारुपात्रेण दुह्यात् अग्निवद्वैदारुपात्रम् यद्दारुपात्रेण दुह्यात् यातया आम्नाहविषाय चेत अथो खल्बाहुः पुरोडाशमुखानि वै हवीगुंषि नेत इतः पुरोडाशगम् हरिषोयामोऽस्तीति काममेव दारुपात्रेण दुह्यात् श्रोद्र एव न दुह्यात् असतो यच्छोद्रः अहविरेव तदित्याहुः यच्छोद्रोदोग्धि अग्निहोत्रमेव न दुह्याच्छूद्रः तद्धिनोत्पुनन्ति यदा खलु वै पवित्रमत्येति अथ तद्धविरिति सम्प्रत्यध्वमृतावरीत्याः अपाञ्चैवौषधीनाञ्चरसगुम्सकुम् सृजति तस्मादपाञ्चौषधीनाञ्चरसमुपजीवामः आन्द्राधनस्य सातयित्याह पुष्टिमेव यजमाने दधाति सोमे नत्वा तलक्ष्मीन्द्रायदधीत्याः सोममेवैनत्करोति यो सोमं भक्षयत्वा भक्षयित्वा संवत्सरगम् सोमन्न पिबति पुनर्भक्ष्योऽस्य सोमपीठो भवति सोमः खलु वै सा अन्नाय्यम् एवम् विद्वान् सा अन्नाय्यम् पिबति अपुनर्भक्ष्योऽस्य सोमपीठो भवति न मृण्मजेनापि दध्यात् यन्मृण्मजेनापि दध्यात् पितृदेव अयस्पात्रेण वा दारुपात्रेण वा विदधाति तद्भि आपो वै रक्षोघ्नेः रक्षसामपहत्यै अदस्तमसि विष्णवेत्तेत्याह यज्ञो वै विष्णुः यज्ञायै वै न दधस्तम् करोति विष्णो हव्यगुम् रक्षस्वेत्याहगुप्त्यै अनधः साधयति गर्भानाम् धृत्या अप्रपादाय तस्माद्गर्भाः प्रजानामप्रपादुकाः उपरी वनिदधाति उपरी व हि सुवर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै कर्मणेवान् देवेभ्यः शके यमित्यार्हशक्त्यै यज्ञस्य वै सन्ततिमनुप्रजाः पशोयजमानस्य सन्तायन्ते यज्ञस्य विच्छित्तिमनुप्रजाः पशवो यजमानस्य विच्छिद्यन्ते यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यैस्तृणामि सन्तत्यै त्वा यज्ञस्येत्याहवीघात् सन्तनोति यजमानस्य प्रजादि पशो नागुम् सन्तत्यै अपः प्रणयति श्रद्धा वा आपः श्रद्धामेवारभ्य प्रणीज प्रचलति अपः प्रणयति यज्ञो वा आपः यज्ञमेवारभ्य प्रणीय प्रचरति अपः प्रणयति वज्रो वा आपः वज्रमेव भ्राद्रुव्येभ्यः प्रहृत्य प्रणील प्रचरति अपः प्रणयति आपो वै रक्षोऽघ्नेः रक्षसामपहत्यै अपः प्रणयति आपो वै देवानाम् प्रियम् धाम देवानामेव प्रियन्धामप्रणीय प्रचरति अपः प्रणयति आपो वै सर्वा देवता आह देवता एवारभ्य प्रणीज प्रचरति देशायत्वेत्याह देशाय ह्येन दा दत्ते प्रत्युष्टगम् रक्षसामपहत्यै धूरसीत्याह एष तैयदनुपस्पृश्याति यात् अध्वर्यम् च यजमानम् च प्रदहेत् उपस्पृश्यात्येति अध्वर्योश्च यजमानस्य च प्रदाहाय धोर्वदयोऽस्मान्धोर्बितम् धोर्वयम् वयम् धोर्वाम इत्याह द्वौ वावपुरुषो यम् चैव धोर्वदि यश्चैरम् धोर्वति ताबुभौ सुार्पयति म् देवानामसि सस्मितमम् पप्रितमम् दुष्टतमम् मह्नितमम् देवहोतममित्याह यथा ऋजुरेवैतत् अहृतमसि हिर्धानमित्याहानात्यै निर्गुंहस्वमाह्वारित्याहधित्यै मित्रस्य त्वा चक्षुषा प्रेक्ष इत्याह मित्रत्वाय मा भेर्मा संवृद्ध मा त्वा हिगुंसिषमित्याहाहिगुंसायै यद्वै किम् च वातो नाभिभाति तत्सर्वम् वरुणदेवत्यम् गुरुवातायेत्याह अवारुणमेवैनत्करोति देवस्य त्वा सविदुःप्रसव इत्याह प्रसोत्यै अश्विनोर्बाहुभ्यामित्याह अश्विनो हि देवानामध्वर्यो आस्ताम् उष्णो हस्ताभ्यामित्याहयत्यै अग्नये दुष्टम् निर्वपामीत्याह अग्नय एवैनाञ्जुष्टम् निर्वपति क्रियजुषा त्रय इमे लोकाः येषाम् लोकानामाप्यै तूष्णीम् चतुर्थम् अपरिमितमेवावलुन्धे स एवमेवानुपूर्वगुम् हवेगुम् श्रिनिर्वपति इदम् देवानामिदमुनः सहेत्याहव्यावृत्त्यै स्फात्यै त्वा नारात्या इत्याह गुप्त्यै तमसी भवा एषोऽ दश्चरति यः परेण हि सुवरभिविघेषम् वै विश्वानरम् ज्योतिरित्याह सुवरेवाभिविपश्यति वैश्वानरञ्ज्योतिः द्या वापृथिवी हरिषिगृहीत उदवेपेताम् ऋह्हन्ताम् ग्रहाणान्द्या वापि चिव्योर्धृत्यै उर्वन्तरिक्षमन्विहीत्याह गत्यै अदित्यास्तोपस्थे सादयामीत्याह निलम्बा अदितिः अस्या एवैनदुपस्थे सादयति अग्ने हव्यगुम् रक्षस्वेत्याहगुप्त्यै इन्द्रो रुत्रमहन् सोऽपः अभ्यम्रियत ता येज्ञयपुंसदेम आसपदक्राम अभवर्भरपगुत्पुना मेंध्याय स देवा आपह ताव ता ना उत्पुना द्वाभ्यात्ुनाजम प्रतिष्ठि दवाो व्यत्नाह सवित्रप्रसूत एवैना उत्पुनाति अच्छिद्रेण पवित्रेणेत्याह असौ वा आदित्योच्छिद्रम् पवित्रम् तेनैवैना उत्पुनाति वसवः सूर्यस्य रश्मिभिरित्याः प्राणा वा आपः प्राणा वसवः प्राणारश्मयः प्राणैरेव प्राणान् सम्प्रणक्ति सविदर्प्रसूतम् मे कर्म सदिति सविदर्प्रसूतमेवास्य कर्म भवति पच्छोगायत्रिजा त्रिः समृद्धत्वाय आपो देवीरग्रे भुवो अग्रे गुवगित्याह रूपमेवासा मे तन्महिमानम् जातष्टे अग्र इम यज्ञम् नयताग्रे यज्ञपतिमित्याह अग्र एव यज्ञं नयन्ति अग्रे यज्ञपतिम् युष्मानिन्द्रो वृणेदवृत्रदौर्ये योऽयमिन्द्रमवृणे ध्वम् वृत्रदौर्य इत्याह वृत्रगंहः निश्यन्विन्द्र आपो वव्रे आपो हेन्द्रम् वब्रिरे सामे वासा मेतत्सामानन्द्याचष्टे प्रोक्षिताश्चेत्याह तेनापः अग्नये भोजिष्टम् प्रोक्षाम् यज्ञे सोमाभ्यामित्याह यथा देवतमेवैनान्प्रोक्षति त्रिःप्रोक्षति त्र्यावृद्धियज्ञः अथो रक्षसामपहत्यै शुन्धद्वन्द्वै व्याजकर्मणे देवयज्ञाया इत्याह देवयज्ञाया एवैनानि शुन्धति त्रिःप्रोक्षति त्रियावृद्धियज्ञः अथो मेऽध्यत्वाय अवधूतगुं रक्षोऽवधूता अराजय इत्याह रक्षसामपहत्यै अदित्यास्त्वगसीत्याह इयम् वा अदितिः अस्या एवै नचम् करोति प्रदित्वा पृथिवी वेत्वित्याह प्रतिष्ठित्यै तस्मात् पुरस्तात् प्रत्यञ्च पशवो मेधमुपतिष्ठन्ते तस्मात् प्रजामृगम् ग्राहुकाः यज्ञो देवेभ्यो निराजत कृष्णो रूपम् कृत्वा यत्कृष्णा जिने हविरध्य वहन्ति यज्ञादेव तद्यज्ञम् प्रयुङ्क्ते हविषो स्कन्दाय अधिशवनमसि वा नस्पत्यमित्याह प्रदित्वादित्यास्त्वग्नेत्याहस यत्त्वाय अग्नेस्तनोरसीत्याह अग्नेरुवा एषा तनोः यदोषधयः वाचो विसर्जनमित्याह यदा हि प्रजा ओषधीना वश्यन्ति अथ वाचम् विसृजन्ते देववीतये अद्रिवसि वानस्पत्य इत्याह ग्रावाणमेवैनत्करोति स इदम् देवेभ्यो हव्यगुंसुशमिष विश्वेत्याह शान्त्यै हविष्कृदेहीत्याह य एव देवानागम् हविष्कृतः आनिर्ह्वयति त्रिर्वयति त्रिषत्या हि दे देवाः इषमापदोर्जमापदेत्याह इषमेवोर्जम् यजमाने दधाति युमद्वदत वयकम् सङ्घातम् चेष्मेत्याहभ्रातृव्याभिभूत्यै मनाश्रद्धा देवस्य यजमानस्या सुरग्भ्रीवाग् यज्ञायुधेषु प्रविष्टासीत् ते सुराजावन्तो यज्ञायुधानामुद्वदतामुपाशृण्वन् ते पराभवन् तस्मात् स्वानाम् मध्ये वसा यजेत न्तोऽश्यभ्राद्रुव्यायज्ञा युधारामुद्वदतामुपशृण्वन्ति ते परा भवन्ति उच्चैः समाहन्त वा आह विजित्यै वृङ्क एषामिन्द्रियम् वीर्यम् श्रेष्ठयेषाम् भवति वर्षवृद्धमसि प्रजित्वा वर्षवृद्धम् वेत्वित्याह वर्षवृद्धा वा ओषधयः वर्षवृद्धा इषीकाः समृद्ध्यै यज्ञकुं रक्षादस्य नु प्राविशन् तान्यस्ना पशुभ्यो निरवादयन्त तुषैरोषधीभ्यः परापूतगुं रक्षः परापूतारादयलित्याः रक्षसामपहत्यै रक्षसाम् भादोऽसीत्याह तुषैरेव रक्षाकंसि रक्षा भादो निरवदयते अप उपस्पृशति मे ध्यत्ताय आयुर्वो विनक्तित्याह पवित्रम् वै वायुः पुनात्येवैनान् अन्तरिक्षादिबा एते प्रस्कन्दन्ति येषोऽर्पान् देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै हविषो स्कन्दाय त्रिःस्फलीकर्तव अवधूतकुम् रक्षोऽवधूतारातजदित्याः रक्षसामपहत्यै अदित्यास्त्वकसीत्याह इयम् वा अदितिः अस्या एवै नत्वचम् करोति प्रदिक्त्वा पृथिवीभेत्वित्याह प्रतिष्ठित्यै पुरस्ताप्रदेचीनग्रीभमुत्तरलोमोपस्त्रिणादिमेत्त्वाय तस्मात् पुरस्ता प्रत्यञ्च पशवो मेधमुपतिष्ठन्ते तस्मात् प्रजामृगम् राहुकाः यज्ञो देवेभ्यो निलायत कृष्णारोपम् कृत्वा यत्कृष्णा जिमे हविरधि पिनष्टि यज्ञा देव तद्यज्ञम् प्रयुङ्क्ते हविषोस्तङ्गाय ्या मात्र मे कमहर्यैताकं शम्या मात्र मे कमः दिवस्कम् भनिरसि प्रदिक्तादित्यास्त्वग् वेत्वित्याह द्यावापृथिव्योर्वीत्यै धिषणासि पर्वत्या प्रदिक्त्वा दिवस्कम् भनिर्वेत्वित्याह द्यावापृथिव्योर्विभृत्यै धिषणासि पार्वतेयी प्रदिक्त्वापर्वतिर्वेत्वित्याह द्यावापृथिव्याधृत्यै देवस्य त्वा सविदुःप्रसव इत्याह प्रसोच्चै अश्विबाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ता वोष्णाहस्ताभ्यामित्याहयत्यै अधिवपामीत्याह तथा देवतमेवैनानधिवपति धान्यमसिभिहि देवानित्याह का देवता जुषो वीण यमयजते यदाति प्रसते न ही तदस्ति यद युहतियजमा दधा दीर्घा मनु प्रसीमायुषे धाह आयुरेवास् अन्तरिक्षादिबा एतानि प्रस्कन्दन्ति यानि घृषदः देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै हविषो स्कन्दाय असम्बपन्दी पिघुंशादूनि कुरुतादित्याह मे धृत्वाय धृष्टिरसि अपाग्नेऽग्निमादम् जहिनिष्क्रव्यादकम् सेधासे भगजम् वहेत्याह य तमपहत्य मेऽध्येऽग्नौ कपालमुपदधाति निर्दग्धम् रक्षो निर्दग्धातयित्याह रक्षागस्येव निर्दहति अग्निवत्युपदधाति अस्मिन्नेव लोके अङ्गारमधिवर्तयति अन्तरिक्ष एव ज्योतिर्धत्ते आदित्यमेवामस्मिन्ल्लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति य एवम् वेद ध्रुवमसि पृथिवीम् धृगुम्हेत्याह पृथिवीमेवैतेन धृगुम्हति धर्तृमस्यन्तरिक्षम् धृगुम्हेत्याह अन्तरिक्षमेवैतेन दृगुम्हति धरुणमसि दिवम् दृगुम्हेत्याह दिवमेवैतेन दृगुम्हति धर्मासि दिशो दृगुम्हेत्याह दिश एवैतेन दृगुंहति इमानेवैतैर्लोकान् दृगुम्हति दृगुंहन्ते स्मा इमे लोकाः प्रजया पशुभिः य एवम् वेद त्रीण्यग्रे कपालान्युपदधाति लोकाः ए ना एक कपाले एक अग्रे कपालति अथ द्व अथ ी अथ चुरी अथ अष्टो तस्द सेदलाुपा वै प्रजापति यमे प्रजापतिस्क्रि आत्मानमेव तत्सद्गस्करोति तकम् सग्गस्कृतमात्मानम् अमुष्मिल्लोकेऽनुपरैति यदष्टापदधाति गायत्र्या तत्संवितम् यन्न वा त्रिवृतावत् यद्दशा विराजातत् यदेकादश त्रिष्ट्वभातत् यद्वादश जगत्या तत् छन्दः संवितानि स उपदधत्कपालानि इमाल्लोकाननुपूर्वम् दिशो विधृत्यैतृगुम्हति अथाजुः प्राणान् प्रजाम् वशो दधाति साता न स्म अभितो बहुलान् करोति चित्तस्थेत्याह यथा यजुरेवैतत् भृगो नामङ्गिरसाम् तपसादप्यध्वमित्याह देवतानामेवैनानि तपसा तपति तानि यानि घर्मे कपालान्युपचिन्वन्ति वेधस इति चतुष्पदजर्चा विमञ्चति चतुष्पादः पशवः पशुष्वेवोपरिष्टात्प्रतितिष्ठति दे। देवस्य त्वासविदः प्रसवजित्याह प्रसोत्यै अश्विनार्बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ताम् तूष्णो हस्ताभ्यामित्याहयत्यै सम्वपामीत्याह यथा देवतमेवैनानि सम्वपति समापो अद्भिरग्मदसमौषधयोसेनेत्याह आपो वा ओषधीर्जिन्वन्ति ओषधयोपो जिन्वन्ति अन्या वा एतासामन्या जिन्वन्ति तस्मादेवमाह सगम् रेवतेर्जगतिभिर्मधुमतेर्मधुमतेभिः सृज्य ध्वमित्याह आपो वैरेवतीः पशवो जगतीः ओषधजो मधुमतीः आप पशोन ताने बास्मा एकधा सघंसृज्य मधुमतः करोति अभ्यः परिप्रजातास्थसमभ्यः प्रच्यध्वमिति पर्याप्लावयति यथा सुहृष्ट इमामनुविसृत्य आप ओषधेर्महजन्ति तादृगेव जनयत्यै त्वासंयौमीत्याह प्रजा एवैतेनदाधार अग्नये एत्त्वाग्निषोमा भ्यामित्याहभ्यावृत्त्यै मघः शिशिरोऽसीत्याह यज्ञो वै मखः तस्यैदक्षिणः यत्पुरोडाशः तस्मादेवमाह धर्मोऽसि विश्वाजुरित्याह विश्वमेवाजुर्यजमाने विश्वामेवाजर्या दधाति उरुप्रथस्वरुते यज्ञपतिः प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति त्वचम् गृह्णेश्वेत्याह सर्वमेवै नगुंसतनुकरोति अथाप आनीयपरिमाष्टि मागुम्स एव तत्त्वचम् दधाति तस्मा आ वा एषो सा अर्धमासे अर्धमासे प्रवृध्यते यत्पुरोडासः स ये ईश्वरो यजमानगुंशुचाप्रदहः पर्यग्निकरोति पशुमे वै नमकः साम् चाहप्रदाहाय नम त्रिः पर्यग्निकरोति म्या रग्यज्ञः अथो रक्षसामपहत्यै अन्तरितगुम् रक्षान्तरिता अरातलहित्याः रक्षा रक्षसामन्तरिहृत्यै पुरोडाशम् वा अधिश्रुतगुम् रक्षागस्य जिघागुम् सन् दिविनाको नामाग्ने रक्षोः स एवास्माद्रक्षागस्य पाहन् देवस्त्वा सविता श्रपयच्छित्याह सवितृप्रसोद एवैनग्निश्रपयति वर्षष्ठे अधिनाकजित्याह रक्षसामपहत्यै अग्निस्ते तनुवम्मातिधादित्याह नतिदाहाय अग्ने हव्यगुं रक्षस्रेत्याहगुप्त्यैः अविदहन्तः श्रपयते द्विवाचम् विसृजते यज्ञमेव हवीगृष्यभिर्व्याहृत्य प्रतनुते पुरोरुचमविदाहारश्रित्यैकरोति मस्तिष्को वै पुरोडाशः तैन्नाभिवासयेत् आविर्मस्तिष्कः स्यात् अभिवासयति तस्माद्गुहामस्तिष्कः भस्मनाभिवासयति तस्मान्मा पुंसेनास्थिच्छन्नम् वेदे नाभिवासयति तस्मात् केशैः शिरश्छन्नम् अखलदि भावुको भवति य एवम् वेद अशोर्वैप्रतिमा पुरोणाशः स नाजुष्टमभिवास्यः वृथेव स्यात् ईश्वरा ै ब्रह्मा प्राणाः पशवः प्राणैरेव पशून् सम्पृणत्य न प्रमायुका भवन्ति यजमानावैपराडाशः प्रजापशवः परेषाम् यदेवमभिभासयति यजमानमेव प्रजाःपशवः समर्थयति देवावेहविर्भृत्वा ब्रुवन् कस्मिन् इदम् रक्ष्यामः इति सोऽग्निरब्रवीत् मयि तनोः सन्निध्वम् अहम् वस्तम् च नयिष्यामि यस्मिन्म्रक्ष्यध्व इति ते देवा अग्नौ तनोः सन्निदधत तस्मादाहोः अग्निः सर्वा देवता ये सोऽङ्गारेणापः अभ्यपातयत् तत एकतो जायत स द्वितीयमभ्यपातयत् ततोऽद्वितोजायत स तृतीयमभ्यपातयत् ततस्त्रितोजायत यदभ्योजायन्त तदाप्यानामाप्यत्वम् यदात्मभ्योजायन्त तदात्म्यानामात्म्यत्वम् ते देवा आप्येष्वमृजत आप्या अमृजत सूर्याभ्युदिते सूर्याभ्युदितः सूर्याभिनिमृक्ते सूर्याभिनिमृक्तः कुनखिनी कुनखी स्यापदति ्यावदन्नग्रदिषौ अग्रदिधिषुः अग्रदि परिवित्ते परिवित्तो वीरहणि वीरः ब्रह्महणि तद्ब्रह्महणन्नात्यस्यवत अन्तर्देदिन् न यत्यवरुध्यै उन्मुखेनाभिगृह्णाति श्रुतत्ताय श्रुतकामा इव हि देवाः देवस्य त्वा स पितुः प्रसव इति स्थ्यमादत्ते अश्विनार् बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ता अष्णाहस्ताभ्यामित्याहजत्यै आद इन्द्रस्य बाहुरसि दक्षिणजित्याह इन्द्रियमेव यजमाने दधाति सहस्रभृष्टिः सतते जा इत्याह रूपमेवास्यैतम् अहिमानम् जादृष्टे वायुरसि जिग्मते तेजोमी वायुः तेज एवास्मिन् दधाति विषाद्यै नामासुर आसीद सोऽभ्येत् यज्ञेन मा देवा अभिभविष्यन्तीति स दे। पृथिवीमभ्यवमीत सा मेऽध्याभवत् अथो यदिन्द्र वृत्रमहन् तस्य लोहितम् पृथिवीमनुद्यथावत् सा मेऽध्याभवत् पृथिवीरेव यजमीत्याह मेऽध्या मे वैनाम् देवगजनीकरोति ओषध्यास्ते मूलम् माहिगुंसिषमित्याह ओषधी नामहिगुंसायै व्रजम् गच्छगोस्थानमित्याह छन्दागुंशिवै व्रजो गोस्थानः छन्दागस्येवास्मै व्रजङ्गोस्थानम् करोति वर्षतु ते द्यौरित्याह वैद्योः वृष्टिमेवावरुन्धे वधानदेव सवितः परमस्याम् परावतीत्याह द्वौ वावपुरुषो यम् चैव द्वेष्ट्ये यश्चैनन्द्वेष्टि ता बुभो बध्नादिपरमस्याम् परावति सवेनपाशैः योस्मान्द्वेष्ट्यम् च वयम् विष्मस्तमतो मामोदित्याहायिम् स पृथिव्यामुपम् लुप्तोऽशयत् देवा अपहतोररः पृथिव्या इति पृथिव्या अपाघ्रन् भ्रातृव्यो वा अररोः अपहतोररः पृथिव्या इति भ्राद्रव्यमेव पृथिव्या अपहन्ति हे मन्यन्त दिवम्बा अयमितः पतिष्यतीति तमररुस्ते दिबम्बास्कानिति भ्रातृव्यो वा अररोः अररस्ते दिवम् मा स्तारिति यदाः भ्रातृव्यमेव दिवः परिबाधते स्तम्भयजुर्हरति पृथिव्या एव भ्रातृव्यमपहन्ति द्वितीजगम् हरति अन्तरिक्षा देवैनमपहन्ति तृतीयजगम् हरति दिव एवैनमपहन्ति तोष्णेम् चतुर्धगम् हरति अपरिमिता देवैनमपहन्ति असुराणाम् वा इयमग्र आसीत् यावदासीनः परा पश्यति तावद्देवानाम् ते देवा अब्रुवन् आस्त्वेवा नास्यामपीति क्यन्नो दास्यथेति यावत् स्वयम् परिगृह्णीथेति तेऽवसवस्त्वेति दक्षिणतः पर्यगृह्णन् रुद्रास्त्वेति पश्चात् आदित्यास्त्वेत्युत्तरतः ते अग्निना प्राञ्चोदयम् वसुभिर्दक्षिणा रुद्रैः प्रत्यञ्चः आदित्यैरुदञ्च यस्यैवम् विदुष वेदिम् परिगृह्णन्ति भवत्यात्मना परास्य भ्राद्रव्यो भवति देवस्य सवितः सम इत्याह प्रसोद्यै कर्म कृण्वन्ति वेधस इत्याह शितगुम्हि कर्म क्रियते पृथिव्यै मेध्यम् चा मेध्यम् च विदक्रान्ता प्राचीनमुदेचीनम् मेध्यम् प्रतेचीनम् दक्षिणा मेध्यम् प्राचीमुदेचीम् प्रवणाम् करोति मेध्या मे वैनाङ्गे भजनी करोति प्राञ्चौवेध्यपुम्सावु नयति आहवनीयस्य परिगृहीत्यै प्रतीचेश्रोणे गार्हवत्यस्य परिगृहीत्यै अथोमिथुनत्वाय उद्धन्ति यदेवास्य अमेध्यम् तदपहन्ति उद्धन्ति तस्मादौषधयः परा भवन्ति मूलम् छिनत्ति भ्रातॄस्यैव मूलम् छिनत्ति मूलम् नोत्तिपते यद्धस्तेन छिन्द्यात् पुनखिने प्रजा स्युः स्थेन छिनत्ति वज्रो वै स्थः रज्रेणैव यज्ञाग्रक्षागस्य पहन्ति पितृदेवत्यादि खाता यदीम् खनति प्रजापतिना यज्ञमुखेन संविताम् ते जर्देवेभ्यो निराजत ताम् चतुरङ्गुलेऽन्वविन्दन् तस्माच्चतुरङ्गुलम् खेयाः चतुरङ्गुलम् चतुरङ्गुले ह्योषधजः प्रतितिष्ठन्ति आप्रतिष्ठायै खनति यजमानमेव प्रतिष्ठाम् गमयति दक्षिणतो परिशीयसीम् करोति देवयजनस्यैव रूपमकः पुरेशवतीम् करोति प्रजावे पशवः पुरेशम् प्रजयैवैनम् पशुभिः करोति उत्तरम् परिग्राहम् परिगृह्णाति एतावती वै यावती वेदिः तस्या एतावत एव भ्रातृर्यम् निर्भज्य आत्मन उत्तरं परिग्राहम् वरि गृह्णाति ऋतमश्रितसदनमश्रितश्रीरसीत्याह यथा यजुरेवैतत् क्रूरमि भवा एतत्करोति यद्वेदिम् करोति धा असि स्वधा असीति योजुप्यते शाम् उर्वीमेवै नाम् अस्यीम् करोति पुरा क्रूरस्य विसृपो विरप्सिम् इत्याहमेध्यत्वाय उदाय पृथिवेञ्जेरदानुर्यामैरयम् चन्द्रमसि स्वधाभिरित्याह देवास्यामेध्यम् तदपहत्या मेध्यान् देवजनीम् कृत्वा यदजश्चन्द्रमसि मेध्यम् तदस्या मेरयति ैरासो अनुदृश्य यजन्त इत्याहानुख्यात्यै प्रोक्षणेरासादय विथ्वा बर्हिरुपसादय स्रुवन्तश्रुतश्च संवृद्धि पत्नीगुम् सन्नह्य आद्ये नो स्थिरस्य वर्त्मन् साधयति यज्ञस्य सन्तत्यै उवाचहासितो दैवलः एतावतेर्वा अमुष्क्यम् लोक आप आसन् यावतेः प्रोक्षणेरिति तस्माद्बह्मीरासाद्या आह स्फिरमुदस्यन् यन् दृश्यात्कन्ध्यायेत् शुचैवेदमर्पयति वज्रोवै स्फ्यः जन्वम् चन्धारयेत् वज्रेध्वर्युः क्षण्मेत पुरस्तात्पर्यम् चन् धारयति वज्रो वे स्थ्यः वज्रेणैव यज्ञस्य दक्षिणतो रक्षादस्य पहन्ति अग्निभ्याम् प्राचश्च प्रदीचश्च स्फेनोदीचराचश्च स्फेनवा एष वज्रेणास्यैवात्मानम् भ्रागृव्यमपहत्य उत्करेऽधिप्रवृष्टति यथोपधाय पृष्ठन्त्येवम् हस्तावनेऽनुक्ते आत्मानमेवपवजते स्फ्यम् प्रक्षालयति मेऽध्यत्ताय अथोपात्मन एव भ्रातुर्यस्य न्यम् गन्च्छि मत्ति विध्वा बहिरुपसादयति युक्त्यै यज्ञस्य मिथु मत्ताय अथो, अथो पुरोरुधमेवैताम् उत्तरस्य कर्मणो न क्षात्ते न पुरस्तात् प्रत्यगुपसाधयेत् यत्पुरस्तात् प्रत्यगुपसादयेत् अन्यत्राहुतिपथादिध्वम् प्रतिपादयेत् प्रजा वै बर्हिः अपराद्धुयात् बर्हिषा प्रजानाम् प्रतिपादयति सम्प्रत्येव बर्हिषा प्रजानाम् प्रजननमुपैदे दक्षिणमिध्वाम् उत्तरम् बर्हिः आत्मा वा विध्मः प्रजाबर्हिः प्रजा स्यात्मन उत्तरतरातीर्थे ततो मेधमुपनीय तथा देवतमेवैन प्रतिष्ठापयति प्रजतिष्ठति प्रजयापशुधर्जमानः इति तृतीयाष्ट द्वितय प्रश्न